प्रथमा अथ प्रथमकाण्डे सप्तमप्रश्नः प्रारम्भः पतिष्ठन्धरिैशान्तरा प्रया जानो याजाके वै ताताय दशलोपवृषवैश वायशो देवोपते यज्ञं वै देवानन्दु हेशामे सत्याशीलस्यै यज्ञ यज्ञेन देवासुवर्गं लोकमायिम्बाक यज्ञेन नसेणा नावर्त तन्देवासुराजीन्देवासुरासा देवानुपावर्तृषो वैद्या ृदशोराज हरिं रामयेतावशस्यामपयेतावदीं कामयेत पुष्मान् प्रतीचेन्दस्य नामपह्वयेदपुषमानेव भवति ब्रह्मराजिना वदन्ति षट्पायद्यात्मानमीडायां वह्वयेतेनप्रियाहेणामेव भूयात्मानमीडायां वह्मि वा एतज्जज्ञामिप्राश्येन्द्रप्रति वा यज्ञोच्छत्य स ब्रह्मणा देवास्समृहस्परमैकाः ब्रह्म वै देवानां बृहस्त्रह्मणैव यज्ञको सुन्ददादिविच्छिन्नै यज्ञको सन्दधातिख्याः सन्दृत्यै विश्वे देवादिमादयन्तामिकाः सन्दृत्यै वै भावमेव यज्ञा देवत्रैव दत्तं कृतात्मषोन्ेवोपैर् कर्मोपलसूमानमेवोपै सदृशवानो यत्सत्रि नाग् ानेन देवान्दाधारम् पानेन मर्ष्यानपानेन विजो लिनद्यहा न, न, न चिनति श्रीरङ्गाश्चेतर्वा प्रथायवाचोर्वास्ये श्रीरङ्गां वाताङ्गा यज्ञे दीयते सा प्राणेन देवाङ्गा धारयनुष्यादेव्यानेन मनुष्या नेदृशमाङ्गीतं वा दया प्रजा प्रभवन्ते प्रत्याभवदे चन्नमा सेदुर्वा प्रथा भवन्ति प्रत्याभवन्त्येवं वेदाः नादोभवत्य सवेतामुपाहादया प्रजापराभवन् गृह्णाति प्रत्याभवन्ते न गृह्णादे प्रतिष्ठां गाः स्ये कृपा राजभोवादयेयं गास्ये प्रतिष्ठेयं वै प्रजापराभवन्ते न गृह्णाति प्रत्याभवन्ते गृह्णादि एवं वेद प्रत्येतामुपाहादयस्यैलक्रमणे घृं प्रजा सञ्जेवं दे पृभन्तेति शनत्यशा निशति ृष्ट्यर्वायुडा वृष्टि विक्रमणे कृतम् प्रजा सञ्जीवन्ते एव भवति परोक्षं वा अन्ये देवा इत्यन्ते प्रत्यक्षमन्येवा परोक्षमित्यन्ते तानेव तद्यैवेदं मा हार्यमाहरत्यै देवै देवा प्रत्यक्षं यत् वा सा नेदेन प्रीणात्यक्षेवा श्रीरादो यज्ञस्यैव चित्रमपि तथा जयद्वे यज्ञस्य क्रोरञ्ज्यं तन् मा हार्ये मा हार्यन्देव दूता वा हेयान्मा हर्यमाहरदेव दूतारेव प्रीणा ेवेभ्योत्सर्गिजाक्तमदस्य दत्तसवा एष प्राजाभुन्वार्यो साक्षादेवन्वाह त्वे वेष्टा भूर्ते प्रजापतेर्थावसीत्या प्रजापतिमेव समर्थयतोदित्याहोर्जमेवा स्कन्दयो ददाति प्राणापानो मे पाहि समानो म्यानो मे पाहित्याः दृश्यमेवैता शास्त्यक्षितो शिक्षित्यै प्रमाष्टा पुत्रागैत्या न्नमिदप्रदा न कुर्यमस्मिन् लोके प्रजा उपजीवं दीयते अन्नं क्षीयते हन्देव यज्ञया प्रजान्भूया समित्याः परि प्रजापतिप्रजा सृजतेन स्वाहन्देव यज्ञया विष्मान्भूया समित्याः प्रजापतिमायज्ञानय देवात्मप्रति यज्ञमासयो वै देवावृत्ति मनोपोर्णमासाध्यानु मुजिदगुणोज्यैपूर्णमासयुज्य प्रो यादे ेवता एवन्द्रोपरिष्टाच्यरोहितेन प्रहरति देवाश्वरहन्देव विज्ञया यज्ञेन प्रतिष्ठाङ्गमैवा सुरे त्याः सोमवीरे द्वोधास्ते नैव रेतो आर्पन्धत्ते तुष्टहन्देव यो शोनागुरुपं पुषे या तु नैव पुशोनागुरु आर्पन्धत्ते देवानामरक्तिर्गवदलीयो रहन्देव यज्ञाथुनेन प्रभुजापुतिर्मिथुनेन प्राजाय तस्मादेव यजमानो मिथुनेन प्रजाय देवेदोत्याहवेदेवै देवासुराणां वृत्तं वेद ेदस्य वेदुर् विद्याये तस्य देवास्य सर्वं वृङ्कृतवन्तम् वेदो ददातु वाजिलविद्याः प्रसात्रम् पशूनाम् ध्रुवां मयि ऋच्यमान यज्ञोनुरुच्यते यज्ञञ्जमानोमानं प्रजा ध्रुवामाप्यायमाना यज्ञान् वाप्याय यज्ञञ्जमानो युद्ध प्रजा आप्यायुतां ध्रुवा कृते नेत्या ध्रुवामैवाप्यायीतामाप्यायमाना यज्ञान् वाप्यायुते यज्ञञ्जुमानो यमानं प्रजा प्रजापदे विभान्नाम लोकस्तस्मिन् कृष्पा दुधां सहयजमानेनेत्या हरिं मयि प्रजापदे विभान्नाम लोकस्तस्मिन्नेव सहयजमानेन रिच्यते न्देदेवामृतमात्मन्धते सर्वाणि भूतानु प्रथमभयङ्ग ेव प्रथम वैदिष्णुमुखावे देवाश्चन्दोमान् लोकार्नपजेयमभिर्जे कृष्णक्रमान्व भोमानच्छन्दोभिमान् लोकानपजीयमभिजेति विष्णोक्रमस्य गायत्रे वै पृथिवेत्रेष्टुभवन्तरिक्षन्धुराष्टवेन्दोभिरवे lokale tha paron je di मेत्याह सुवर्णमेव लोकमेवा वृक्षेत्याहीत्या ्यावर्तते दक्षिणा पर्यावर्तते स्वमेव वेद्यावर्तते तस्मात् दक्षिणोद्ध आत्मना वीर्यावर्तयो आदित्यस्यैवा वृतनपर्यावर्तते समहं प्रजया ष्टन्दाभ्यामुपदिष्टज्ञे ग्रहबलैत्याः यथा इति रेवैदक्षमाहिता हेमन्तान्दवा वेददा पुत्रस्य नाम प्रदम जार्श्ञ bodhya ुच्राट आढ् प्राड लेता मासे शुमाशा जेदं तृन्त वे चीप्र मुश्पस देष्पतर, रस्याद्या ऑतृत् स्वेय्वै स्वेटार्श् lupi प्रदम जार गात yr दृत्न पुनरालम्भस्ते पुनरालभते प्रजायाम् यत् सर्वतोऽद्यत् कृत्स्नयत्ने वदं भगवद् ऋग्वेदं नरवाः केन वोख्यदन नपुनाद वादस्मिर्वाद प्रतिस्वनदनः इन्द्रस्य वक्रोज मात्रः नस्तयाय मत्रं मध्यः राजस्य प्रसवे मादरं महेद गन्नाम वचसागरामे यस्यामिदं विश्वं भवनामाभिरेयस्तस्सा अन्नदः स्वधर्मसाविष्णः अप्सुन्दरं रमन्तं सुखेगिच्छन् महामंत प्रसस्यश्वसुराभो जनाना धर्म कृष्णाक्रमृष्णा विक्रान्तो द्वान्वादाक्रमणसञ्जने Whyation It Áするे उ sociedad, बार्यिनेष्ट, बुढलिनेषस, आकर्वियाचन निम्तिर, आपनिध्र खीन, जाप्ये तैंत्त्र, इन राव dotted같ुड के उच्चा पाहई, तॉस्यवाजे, वाझेष वाजेश वाजेश्यवाजिन, इंउधिश्वा Iян, समस्यवाजियार। कर्वाज कर्क अस्य मध्वः वाजिनः भवन्तु देवदार्गा सदनदिक्करा न सन्धेवे एतत् तथाम कागस्य नापणे भद उद्दस्मानः छत्रवरस्य निदपन्नं भवेण वादप्रकर्तना सेनासेवत्रजवान् समत्रे दिक्करा उन्नस्सोऽध्याद तथा आमालाजस्य कोषाजनकं यादाद्यव वृद्धिश्वशंभू आमागंधान् पितरावान् मंत्राक्रमणं सोमं भतत्वाय गणातु वाचना वाजति सरिष्यन् बृहत्पते भागमभिषिकृत वाजिनो वाजति भागेन श्चिश्चान्तायनश्चान्त्यश्च भुवनश्च भवनश्चादिश्च आर्विज्ञानकल्पदां प्राणो विज्ञानकल्पदानो विज्ञानकल्पदा ज्ञानकल्पदा कल्पदावृता राय समया रायस्पोषाय ेव अग्रे स्वमनो राजा नमोश्वरसु भवन्त प्रभान इस्वास्थ पेदान दाना आ Laborator ilु करते wirdd फिरन त्रमो आपरशकर śवाय माँं प्रम्रोख्तभराश्परे नच्वाबर। अंस रहाध्यतक समंहर प्रमोण त لاक्रे फेन वात्रमो block review स्वांमObxyciplार्ष करें कंभ्रोशकर् iang स्वाम्राज्ये नाभिषिञामिन्द्रस्य बृहत्पदे स्वाधाम्राज्ये नाभिषिञ्चामि ञ्जरेण वाच मुदजय लक्ष्म्यक्षरेण प्राणापाना विष्णुस्त्रि अक्षरेण त्रि लोकानुदयेत्रक्षरेण चतुष्पद पुरुषोषा पञ्चरेण पञ्च मुदलयेता षडक्षरेण सप्ताक्षरेण सप्तमदायन्द्रष्टाक्षरेण गायत्री त्रयोदशाक्षरण त्रयोदशकृस्तां मदयेनक्षरेण त्रिदशकृ पञ्चदशाक्षरेण पञ्चदशकृस्तां मधुरे षोडशाक्षरेण षोडशकृस्तां मधुरेण सप्तदशकृस्ता मधुरे गृहीतोऽसि त्रिषदन्द्वा त्रम्भो रमिन्द्राय जुष्टङ्गेषय त्वोपयाम गृहीतोऽस्य कृतसदम्भ्यो रथदमिन्द्राय जुष्टङ्गाम् एषदेवयो निरीन्द्राय त्वोपयाम् गृहीतोऽसि पृथ्वषतन्द्वान्तरिक्षसदं नाकसदङ्गाय जुष्टङ्गामेषय त्वा पञ्चजनीना एषा यै व्यक्तोशसमप्तः ेषु निर्गायित्वातुः स प्रच्युते स्वायान्यवान् ्यन्वोषेवमनुवृत्ताहत्येक्षत्रमनुष यत्रेन्द्रदेवेऽभिरनुषह्ये यस्य सुष्माभ्यसेतान्नासजनास इन्द्रः आदे महेन्द्रो जग्रमरन्तः विचारि स्मिन् प्रदोष्ठा हि त्वासूनाम् इन्द्रयुतेमाहि नन्दत्रमस्य प्रयुन्धिकारमोहरामः इन्द्रमाविषावयम् स्यापि भद्रेसो मनसे सदावरा सववृन्द्र अस्मे आराचित्वेशस्नुदरि योतु व्यदियर्नस् सधमादन्द्रय संतुर्माधा शुभन्दोया धर्मदेमा रोष्रस्स्मे पुरार्थमदाय सोषमर्चना अभेङ्गे चदलो भगवत् संघीय समत्सुत्रः अस्माकं बोधिचोदितार बन्दमञ्जेेशः ज्याका अजितन् वसो इति प्रथमकाण्डे सप्तमः प्रश्नः समाप्तः